मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं फोर्टीन् नानामदैक्ययोगम् श्रीगणेशाय नमः मुद्गल उवाच वक्ष्यामि भावनां चैकां वेदशास्त्रार्थसंयुतां मदभयं त्यक्त्वा तया योगी भवेन्नरः चैतन्यं न्यायशास्त्रज्ञा वदन्ति ब्रह्ममुख्यकं चैतन्येन युधा सर्वे स्वस्वपार्यपरायणाः सर्वप्रकाशकत्वा तच्चैतन्यं ब्रह्मसं इदं चैतन्येन यदा त्यक्तं तदा नाशमुपैष्यति पञ्चचित्तत्मयोगेन चैतन्यं ब्रह्मसंनिधं भवत्यत्र न सन्देहशब्दार्थानामनेकतः तार्किका प्रवदन्त्येव सर्वाभेदं परं मदम् ब्रह्मवेदान्तवादेषु विद्यते शास्त्रसम्मतौ पञ्चचित्तमयाभेदा अभेदा योगिना कृताः योग एकार्थभावाख्यो भवत्यर्थप्रमाणदः धर्मशास्त्रविदः सर्वे बोधान्नैव परं पदं ब्रह्मबोधमयं मुख्यम् भावा भावाभावविवर्जितं पञ्चचित्तगतो धर्मस्त्यक्तव्यस्तेन योगकः धर्मो भवेन्न सन्देहो ब्रह्म धर्म धरःप्रभुः साङ्ख्या वदन्ति साङ्ख्यं यद्ब्रह्म संख्याविवर्जितं विबो धानपरं ब्रह्म केलहीनप्रभावदः तत्र पञ्चविधं चित्तं परं योगेन संख्यया हीनं तदेव भवति योगाख्यं शब्दमानदः मीमां वदन्त्येव स्वसंवेद्यं परं कारणं ब्रह्म तत्रान्यन्नास्ति ब्रह्मणि संस्थितम् पञ्चचित्तं परित्यज्य ब्रह्मरूपं परोदि तद् मीमांसया स्वयं योगी योगवाच्यं भवेत् परम् एवं नानामधैर्युक्ता वदन्ति शास्त्रभेदः ब्रह्मनानाविधं दक्षतदेवं योगगं भवेद शक्तिर्ब्रह्मेदि शाक्ता वै ते वदन्ति न तत्परः तदेवं योगगं भवेद् सख्रिपञ्चमचित्तं गा सा ब्रह्मणि समागता परिगृह्य निरोधाख्यं चित्तं देवी तदस्मृता सौरम् ब्रह्मेदि सौराश्च वदन्ति तु परात्परं तस्मात् परं न विद्येद सर्वाधारप्रमाणतः भेदात्मकं स सञ्जीव्य नित्यं तिष्ठति चादराद तेन योगमयसूर्यो भवत्यत्र न योग संशयः वदन्ति विष्णुर्ब्रह्मेदि मुख्यं यद्वैष्णवा जनाः तस्मात् परं पदं नास्ति सदानन्दप्रमाणदः चित्तं यत्पञ्चमं तत्र मोहं त्यक्त्वा तदा अस्माकं ब्रह्मयोगे भवेद्योग आनन्दो नात्र शैवाशैवं परं ब्रह्म वदन्ति मुख्यभावदः वेदे तस्मात् परं नास्ति किञ्चिन्मोहविहीनकं निरोधं त्रिविधं दक्ष पराधीनं नसंशयः तत्रस्तं योगरूपाख्यं स्वाधीनं योगगं भवेद एवं नानामदैवोक्ता स्वस्वदेवपरायणाः वदन्ति तत्प्रमाणं वै शब्दानामार्थभावतः अनेकार्थमया शब्दास्तेषु किं किं न सम्भवेद सर्वे जायन्ते योगिनः अन्नप्राणादिका शब्दा एवं ब्रह्मप्रवाचकाः ते सर्वे योगदा दक्ष भवन्ति ब्रह्मधारणाद वेदान्तमथ वक्ष्यामि सर्वमान्यं विशेषदः शास्त्राणि च तदङ्गानि तत्प्रमाणानि सर्वदा यत्सर्वं सर्वभावेषु युधो जानादि मायया मायाहीनप्रभावेण योगस्तिष्ठदिनित्यदा तदेव ब्रह्ममुख्यं तु सर्वेभ्यो नात्रसंशयः, संशयः ब्रह्मभ्य हृज्जगादैवप्रज्ञानं योगगं स्मृतं पञ्चचित्तभवं सर्वं यो जानाति तदेव सः योगस्तद्गदभावै संवर्जितो भवति प्रभुः अहं ब्रह्मेदि यद्ब्रह्म सर्वदोषविवर्जितं सदैवं यजुषा प्रोक्तं मुख्यं वै परतः परं भेदवर्जितं योगं विद्धिप्रजानाथ योगशास्त्रप्रमाणदः मायामोहयुधं यच्च मायामोहविवर्जितं तयोर्योगे परं ब्रह्म साम्ना सङ्कथितं गिल मायामोहयुदं अयोगं माययाहीनं तयोर्योगे दुयोगम् ब्रह्म ब्रह्मणि संस्थं यन्मनोवाणीमयं न तद् मनोवाणीविहीनं नाथर्ववेदो जगदः मनोवाणीमयप्रोक्तः सम्प्रज्ञादो न संशयः असम्प्रज्ञातकस्ताभ्यां हीनो योगस्तयोः परः एवम् वेदार्थयुक्तानि महाकाव्यानि मानद योगाख्यानि विशेषेण जानीया योगसेवया कर्मादय समाख्यादा शब्दा ब्रह्ममया बुधैः भवन्ति योगसंज्ञस्तास्ते सर्वे योगिनां मदे सर्वशास्त्रमतैक्यं ते कथितं शब्दधारणादत्वा मोहीनः सदा मानवः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृदार्थशास्त्रे चित्तभूमिनिरोधेन नानामतैक्ययोगो नाम चतुर्दशोऽध्यायः इति योगगीतासूपनिषत्सु सुगमासु दशमोऽध्यायः ओम्